अथ दशमः सर्गः ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः राक्षसाधिपतेर्वेश्मभीमकर्मा विभीषणः शैलाग्रचय सङ्काशम् शैलशृङ्गमिवोन्नतम् सुविभक्तमहाकक्षम् महाजनपरिग्रहम् राक्षसैराप्त पर्याप्तैः सर्वतः परिरक्षितम् मत्तमातङ्गनिःश्वासैर्व्याकुलीकृतमारुतम् शङ्खघोषमहाघोषम् तूर्यसम्बाधनादितम् प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् तप्त काञ्चन निर्यूहम् भूषणोत्तमभूषितम् गन्धर्वाणामि रत्नसंचयसंबाधं भवनं भोगिनामि वा तम् महाभ्रमि वा दिद्यस्तेजो विस्तृतरश्मिवान् अग्रजस्यालयम् वीरः प्रविवेशमहाद्युतिः पुण्यान् पुण्याः घोषांश्च वेदविद्भिरुदाहृतान् शुश्रावसुमहातेजा पूजितान्दधिपात्रैश्च सर्पेर्भिः सुमनोक्षतैः मन्त्रवेदविदो विप्रान्तदर्शसमहाबलः स पूज्यमानो रक्षोभिर्दीप्यमानम् स्वतेजसा आसनस्थम् महाबाहुर्ववन्दे धनदानुजम् स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् जगामसमुदाचारं प्रयुज्याचार कोविदः सरावणम् महात्मानम् विजने मन्त्रिसन्निधौ उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् प्रसाद्यभ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः देशकालार्थसंवादि दृष्टलोकपरावरः यदा यभति वैदेही संप्राप्तेह तप तदा प्रभृति दृश्य निम्त्ताशुभाफुंगूमाच्य स धूम कलुषोदय मंत्रसंधुक्षिप्यगभिवर्धते अग्निष्ष्विनिशालासु तथा ब्रह्मस्थलु च सरीथपा दृश्य हव्यु च पिपीलि सिस्कन्नानि पयां स्कन्ना वरकुंजरा दीनमश्वाहेशं नवग्रासन खरोष्राश्वतराराजिन्न रों चवे तिषर वायसा सङ्घषः क्रूरा व्याहरन्त्य समम् ततः समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घः गृध्राश्च परिलीयन्ते पुरीमुपरिपिण्डिताः उपपन्नाश्च संध्ये द्वे व्याहरन्त्य शिवम् शिवाः क्रव्यादानाम् मृगाणाम् च पुरी द्वारेषु श्रूयन्ते विपुलाघोषाः स विस्फूर्जितनिःस्वनाः तदेवम् प्रस्तुते कार्ये प्रायश्चित्तमिदम् श्रमम् रोचये वीरवैदेही राघवाय प्रदीयता इदम् च यदि वामोहाल्लोभाद्वा मया तत्रापि च महाराज न दोषम् अयम् हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते रक्षसाम् राक्षसीनाम् च पुरस्यान्तःपुरस्य च चा। प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः अवश्यम् च मया वाच्यम् यद्दृष्टमथवा यथा न्यायम् तद्भवान् कर्तुमर्हति इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः हितम् महार्थम् मृदुहेतुसंहितम् व्यतीत कालायति सम्प्रतिक्षमम् निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् भयम् न पश्यामि कुतश्चिदप्यहम् न राघवः प्राप्स्यति जातु मैथिली सुरैः सहेन्द्रैरपि सङ्गरे लक्ष्मणाग्रजः इत्येवमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्ड विक्रमः दशाननो भ्रातरमाप्तवादिनम् शे श्रीमद्राणे वाक ये आजिका युद्धकांडे दशम सर्ग